न पुत्रम् पुत्रं न नप्तारं न भ्रातरमरिन्दमाः समतिक्रान्तमर्यादं पूजयन्ति नराधिपाः यत्नाच्चोपचरे देनमग्निवद्देववद्विहा अनु तेनोपचीर्णो हि हन्यादेवनसंशयः यद्यद्भर्त्रानुयुञ्जीता तत्तदेवानुवर्तयेत् प्रमादमबलेपञ्च समर्थनासु सर्वासु च प्रियमेव च संवर्णयेत्तदेवास्याप्रियादपि हितं अनुकूलो भवेच्चास्या सर्वार्थेषु कतासु च अप्रियम् चाहितम् यः स्यात्तदस्मै चानुवर्णयेत् नाहमस्य प्रियोऽस्मीति मत्वा सेवेतपण्डितः अप्रमत्तश्च सततम् हितम् कुर्यात्प्रियञ्चयत् नास्यानिष्ठानि सेवेत नाहितैः सह संवदेत् स्वस्थान्नान्नविकम्पेत सराजवसतिम्